पूर्वादा देवेभ्य श्रृगम् पुरा अनैनुभव्रूणामहम् शतम् धामानि सप्त च शतम्बोऽ सहस्रमुतपोरुहाः तथा सक्रत्वो योजमिमम् मे अकथम् कृता ओषधीकृतिमोदध्वम् पुष्पाव प्रसुवतीः स्वादिवसदित्वारुधः पारयिष्णवाः ओषधीरजीमातरस्तद्वो देवीरुपब्रुवे स नेयमस्वङ्गाम् वास आत्मानम् पूरुष अश्वत्थेवो निषदानम् वह्णेवो वसतिष्कृता गोभाजयि किलासतयत्सलवथ पूरुषम् त्रौषधी समग्भराजा नः समीताविवृः समुच्यते भिणग्रक्षोहामी वचात नः अश्वापतीम् दो मापतीमूर्तयन्ति मुदो यजसम् आवित्य सर्वापोषाधीरस्मारिष्टुष्मापोषाधीनाम् गावो गोष्ठाधिवेदते धनम् दरिष्यन्ती नामात्मानन्दव पूरुषा यष्कृतिर्नाम गो माता सो यूयम् सनिष्कृतीः क्षीराः पदत्रिणीस्तनयतामयातिनिष्कृता अतिविश्वापरिष्ठास्तेन एव वृथा क्रमो पूराधे प्राज पर्यक्तिम् च यदि मा भाजयन् नमोषाधीर्वस्तादते आत्मा यक्ष्मस्य नश्यति पुराजीवगृभो यथा यस्योषधेश्वमङ्गम् परुष्परो ततो यक्ष्मम् विवादद्वुग्रो मध्यमसीरीव साकम् यक्ष्मप्रभाचाषेन कि साकम् वातस्य द्राज्या साकम् नस्य निगाकाया अन्यावोऽस्याः संविधाना इदम् मे प्रावतावचाः या फलिनीर्याफला पुष्पाया च पुष्मिणीः बृहस्पतिप्रसूतास्तानो मुञ्जन् त्वम् गासः ो मातमध्यादुता अथो यमस्य पद्देशात् सर्वस्माद्देवगल्बिषात् अभवदम् धीरपदम् दिववोषाधयः परि यम् जीवमस्नवामहैनश्यादिपूरुषः या वोषाधी सोमराज्ञे बह्वी सदविदक्षणाः मारम् कामाय सम्भृते यावोषधी सोमराज्ञैर्विष्टीदा पृथिवी मनु बृहस्पतिप्रसूताम् दत्तवीर्यम् मा भोरिषत्खनिता यस्मै चाहम् खनानिव च दष्पदस्माकम् ेदमुपशृण्वन्ति याश्च दूरम् परागताः सर्वाः सङ्गत्य वीरुधोऽस्यै सन्दत्तवीर्यम् कोषधयः सम्पादन्ते सोमेन सह राज्ञा यस्मै कृणोति ब्राह्मणस्तम् राजम् बालयामसितवृक्षा उपसयः ोऽस्माकम् योऽस्माभिदति बृहस्पते पति मे देवतामिहि मित्रो बालग्वरो नो भूषा वासिभूषा आदित्यैर्वाजद्वसोभिर्मरुत्वान् समर्जन्यम् सन्तनवे वृषाय देवो दूतो अजलसीकृत्वा त्वेवापे अभिमामागच्छत्मजिमापृत्स्वदधाम्बाचमासन् अस्मेधे यद्युमतीम्बाच मासम् बृहस्पतेया वृष्टिम् सन्दनदेवनावधिो द्रप्सो मधु माविवेश द्रप्सा मधुमन्तोऽ सन्तिन्द्रधेधीरथम् सहस्रम् याजस्व देवाम् देवापे अपिषासपर्यषेणो होत्र मृषम् निषेदम् देवाभिर्देवसुपतिम् चीघित्वा समवतारम् सहोत्र मुद्रे अध्युत्तरस्मिन्नाभो देवेऽभिर्निवेदातिष्ठन् ता अध्यवन्नाभ्येन सृष्टा देवा देवाभिः सन्दनवे पुरोहितो होत्राय मृतः कृपजन्न देवश्रुतम् वृष्टिपनिमृता लो मृगस्व नो अग्रा मानुष्यः समेधे विश्वेभर्देवैरनुमज्यमानत्वपर्जन्यामीरजा वृष्टिमन्धम् त्वाम् पूर्वजा योगेर्भिरायन्वामच्छ्वरेणोपोतविश्वे सहस्रान्यधीरथान्यस्मे आनो यज्ञम् रोगिधस्वोपायायि एतान्यज्ञेन वचन्न वत्त्वे आहूतान्यधीरथा सहस्रा तेभिर्वर्धस्वदण्डशूरभूवेर्दिवो नो वृष्टिमीषितो एतान्यज्ञेन वजम् सहस्राम्रयच्छ विश्वेन्द्राय भागम् विद्वान्वधर्तुयानानप्यौ लानम् दिवि देवेषु धेहि अग्ने वादस्वृतोऽपि दुर्गा वामी वामवरक्षाम् सिषेध अस्मासमुद्राद्रे गतो दिवो नोपाम् भूपानमुपालसृहखश्चित्रमेषण्यसि चिकित्त्वान् प्रेजग्मानम् वास्रम् वा वृध्यैः कर्त सदा दुःसहासोऽव्योष्टौ तक्षद्वज्रम् रद्रसुरमपि स यद्युताभिद्युता वेदि सामार्थम् यो निमस कृत्वा स साध सेलेभिः प्रसहानो अस्य भ्रातर्न ऋते सप्त सस्य माया सवाजम् जाता स्वर्जाता परिषदत्सहिष्यन् अनर्वायक्षतदूरस्य वेदो घ्राञ्चि सदेवामभिमर्पसा भूरि लक्ष्यो मीर्गोष्र्वायोपधन्या श्रीः अपादो यत्र युद्यासो रतात्रोण्यस्व शरीरति घृतं वा सर्वत्रेभिरवारवाहि गजमारे अवध्यागात् अम्रस्य मन्ये मिथना विभौ क्षन्त्रि शीर्षा अस्य त्रितोन्वोज सावृधानो विपाप राघमयो अग्रयाहन् से मनुषोर्ध्वनाय सर्वम् सनृतमो नोषोऽस्मत्सुजातः पुनोऽभिनदर्गन्धस्यु हत्ये सोऽ न यौ धन्याङ्क्षया जगातुम् विदन्नो अस्मे उपयत्सी दनिन्दम् शरीरै श्येनो यो बाष्टिनहञ्जिलस्यून् सम्रादश्रवसाने वीरस्य कृत्वा कृपणे परादात् अयम् हविमास्य मा नो अस्य सनि गोतनृणा अयम् दस्यर्ये विरचलक्ष्मो देवे भो नो न माली अयम् कभीरऋतुवा वेद्य मेमिश्च दृष्पा अस्य स्तोमे विरौसि च ऋजिष्वा वृन्दरे दृढरे पवित्रोः यज्ञानः कालतिसु स्वारिषमूर्धम् विश्वमाभाजिवत्सुरः सुपाभोधिनो बृहे देवे भर्णनसविलाप्रावाद सुरमा सर्वदा जिमदीतिमृणीमहे भराय सुभागभ्रत्यशम्रवायवे शुचिपे क्रन्दजुष्टये गौरस्य यः पयसीतिमानसः सर्वदा जिमदीतिमृणीमहे देवस्य विदासा विजुजते जमानाय सम्पते यथा देवान् प्रतिभूषेमपा गपदा सर्वदा जिमदीतिम् वृणीमहे इन्द्रो अस्मे सुमना अस्तु विस्तायासो मस्तु विदस्याध्ये न मित्रधीतानि तम् दधुरा सर्वदा जिमदीतिम् इन्द्रमुक्थेन समासाफले प्रदशीता स्यायूहः यज्ञो मनः प्रमाजन्मीतिहे इन्द्रस्य न सुकृतम् दैव्यम् सोऽग्निगृहेता मे धीरः कविः यज्ञश्चिरन्द सर्वदाधिमदीति वृणीमहे चक्रमभूरे दुष्कृतम् नाविष्यम् वसवो देवहेलनम्पसा दे सर्वदा जिमतीमहे अपामी वाम् सवितासा विषण्या अग्मरीयि तपसे ्राभायत्रा मधुरुच्छृहदा सर्वदाृणीमहे कूर्ध्वो ग्रावामसभोस्तु सोतरि विस्वाद्वेषाम् सनुूयोत स नो देवः स विता पायुरेढ्यः सर्वदा जिमतीति मृणीमहे ूर्जङ्गा भोजव सेपीवो अर्तरहितस्य या सदनेकोशे अन्ध्वे अनूदेवतम्बो अस्तु भेषचमा सर्वदा दिवदीतिम् वृणीमहे कृतप्रावाजलिता सस्वतामबलिन्द्रजित् भद्रा दिव्यम् यस्य दिक्तया सर्वदाहे दिम चित्रस्ते भालुक्रुप्राभिष्टिः सन्धि स्मृतो जलनिप्राधृक्षा रजिक्षया रज्याग्रणम् उद्बोध्यध्वंसमानसः सखायः समग्निरा अधिक्त्रामग्निमुषतम् यदेवीमिन्द्रावतो वा सेनिक् मन्त्राक्रेण ध्वम् धियहात नरित्रमराणि गणध्वम् इषक्रेणध्वमायुधारम् गणध्वम् राञ्चम् जग्धम् प्रणायता सकायः नध्वम् कृते यो नो रपदेहदीजम् गिराजः सृष्टिः सभराहसन्सृण्यः पक्वमेयात् क्षीरायुञ्जन्ति कवयो युगावितन्वते पृथक् धीरा देवेषु सुम्भया या हा वान् प्रेदोदनसंवारत्रादधातन सिञ्जामावतमुद्रिणम् भजम् सुषे कमलोपक्षितम् निष्क्रेताः मम पदम् सोभत्रम् सोषेचलम् रुद्रिणम् सिञ्चे अक्षीतम् प्रीनीता स्वानिरञ्जाया शिवाहं रथ निक्रीणध्वम् द्रोणाः मम वदक्रमम् सत्रकोशम् सिञ्जता नृपाणम् ऋतम् क्रीणध्वम् देवो नृपाणो बन्म देव्यध्वम् बहुला ऋतो ृङ्गताम् आबोधियम् जज्ञियाम्बर्तभूतजयदेवा देवीम् जय जताम् जज्ञियाभिह सा नो दिः यज्जव सेव ग्रीसहस्रधारामय सा मही गौः ीन्द्रो रूप सेवास्मन्मयीभिः परिष्वजध्वंस कक्ष्याभिर्भेदुरौकृभिमानोऽन्तर्यो नेवरतिजानीः वनस्पतिम्बनः उत्सवम् अभृन्दरः कुरुधातनोदयातसातये पुत्रवाच्यापजोतज इन्द्रम् सपाथ जिगतो मापीतये प्रथेदम् विदो गतमिन्द्रो भवतु दृष्ण अस्मिन् राजोपूर्धूलसमा ये धनपक्षेषु नो वा ीरथम् यजा यत्सहस्रम् कपिष्टौ भरे गतम् येन्द्रसेना अन्तर्यच्छति काम् सतो वज्रविन्द्राभिदासतः वापघवन्नाद्यस्य वास न तर्य भजापथम् ूटम् स्वशृङ्गमादिमेतिकभामानो जिलम्बाहूरत्पजन्तजे न मे हजन् वृषभम् मध्य आजेः तेन सौ गर्वम् सतवत्सहस्रङ्गवामुद्गलप्रधने जिगाय ृषभो युक्ता शीलवावशीत्सारथिरस्य केशी लर्युक्तस्यन्द्रपादः सखानो मुद्गलानि उदप्रतिमुदघन्नस्य विद्वानुपायनम् स गमत्र शिक्षन् इन्द्र उदापत्पतिमज्ञानामरम् गतपु्या सुनमश्वाम्यजलकर्देव रत्रायान्दार्वालह्यमानः कृना जगास्पस्वसा इमश्चयुञ्जम् काष्ठायामध्ये दुर्घनम् सयानम् येन जिगाज शतवत्सहस्रङ्गवामुद्गरप्रदलाज्येषु आरे अघाकोऽ यदि दर्शयम् युञ्जन्ति तम् वा स्थापयन्ति नास्मै तृणम् नोदकमाभरम् चुत्तरोधुरो वा हति प्रदेश परिवृत्तेव परिविद्यमानपीव्या नागूचक्रेणेव सिञ्चन् एषैष्यादिद्रध्यादयेम सुमङ्गलम् विना मदस्तु स्य जगदश्चक्षूरिन्द्रासि चक्षुरः मृषायधायुधा आशुसुधा नो मृगभो न भीमोघनाघनः क्षोभश्चरणीना सङ्ग्रन्धनो निमिषये कबीरः स्वदम् मेना अजयः सागमिन्द्राः सङ्क्रन्दनेनानिमिषेण धृष्णुना युत्कालेन दुश्च्रेण जयदत्सध्वंजुधो नयिषु हस्तेन विष्णाः सयिषु हस्ते सनि सङ्गभिर्वशी सङ्ग्रष्टादयुध इन्द्रो घनेन संद्रष्टित् सोमपासद्योग्रधम् वा प्रतीताभिरस्ता बृहस्पदे परिदीया रक्षोहामित्राङ्गमबाधमानः प्रभञ्जन् सेनाप्रमृणो युधाजयन्नस्माकमेऽद्यतारथानाम् नरविज्ञायश्च वीरः प्रवीरः सहस्वान्माजी सह मानमुग्रह अभिवीरो अभि सत्त्वा सहोजाचैत्रमिन्द्रमाचष्ट गोविते गोस्त्रभिरम् गोवितम् वज्रबाहुञ्जयम् समध्वप्रवृणन् समोजसा इमम् स जाता अनु वीरजध्वमिन्द्रम् सखाजो अनुसंरभ्वम् अभिगोत्रानिदः सागाः मानो धयो वीरः स्वतमञ्जुरिन्द्राः प्रेतनाशायुध्योस्माकम् सेना अवधु प्रयुत्सु इन्द्र आसाम् नेता बृहस्पतिर्दक्षिणा यज्ञः पुरजेतु देवसेनानामभिभञ्जतीनाम् जयन्तीनाम् मरुतो जन्त्वग्रम् इन्द्रस्य विष्णोमरुणस्य राज्ञ्यादित्यानाम् मरुताम् श्रद्धामुग्रम् महामानसाम् भुवनच्छवानाम् घोषो देवानाम् जयतामुदस्तात् उद्धृषयन्नायूधान्युद्धाम् उद्धृतण्वाजीनाम् वाजीनान्युद्ध्रथानाम् जयताम् यन्तु घोषाः अस्माकमेन्द्रः समृतेष वीरा उत्तारे भवन्तु स्मा कू देवावताहमेषु मीषाम् चित्तम् प्रातिलोभयन्तीमाङ्गाङ्गे परे हि अभिप्रेहि निर्दाहृत्सुशोकैः रन्ध्रेण मित्रास्तमसासन्ता प्रेता जयता नर इन्द्रो वः शर्मा उग्रामः सन्तु भागवो नाधिष्यायथा सा असौ व्यासेना मरुदपरे रामधैतिरमोजसा स्पर्धमाना ताम्बोहतमसापंव्रते न यथा मीरा अन्यो अन्यम् न जानाति अन्धाभि भवता शीर्षाणा ेषाम् वग्निदग्धानामग्निमूलानामिन्द्रो हु बलम् वलम् असा विदुभ्यम् गरिभ्याम् यज्ञमुपयाहितोऽजम् स्वभ्यङ्गिरोभिप्रवीराजियानादधन्विज वा सुदस्य अप्सुधूतस्य गलिमपि सुदस्य च र्यमद्रायैन्द्रभ्यम् देभर्वमदमुत्सवाः प्रोग्राम् पेजम् मृष्णायम्भ्यम् इन्द्रेभिर्विश्वाभिश्वः भूति न व्योदधाः नाज्ञाः ोमेतस्तर्घृणन्दसःष्टे हरि यो सोषं नस्य पुनरुचोजनासः मम् ज्येष्ठा भूतिम् यतिरेन्द्रानासोतारायिपसूरुदाभिः उभब्रह्माणि हरिवो हरिभ्याम् सोमस्य जायि पीतये सुतस्य न्द्रत्वा यज्ञः क्षमानमानद्धा स्वास्य ज्वरस्य प्रकेतः सहस्रवाचमभिमादिषाहम् सुतेरनम् अघवानम् सुभृत्यगिरो अप्रादिन्द्रम् नमस्याय ऋदुःपानन्ता सप्तापो देवी सुरणा अनुक्तायाभ्यस्य ोत्यानः च स्रवन्तीर्देवेभ्यो गातुम् मनुषे च विन्दः अहो महीरविदस्तेरमुञ्जोजागरास्वधिदेव एकाः इन्द्रयास्त्वम् रचितदूर्ये जगच्छताभिर्विश्वायस्तन्वम् वपुष्याः ीरेण्यक् दुरेन्द्रस्वस्ति दृताभिधेना पुरुहूतमीष्टे आचयद्वित्रमकृ लोकम् सारे शक्रः कृता नाष्टिः सुनम् गो वेमघवानमिन्द्रभस्मिन्भरे तम्बाज सौ शृण्वन्तमुग्रमुदये समत्स्वघ्नन्तम् वृत्राणि सञ्जितम् धनानाम् कदा वासोऽस्तोत्रम् वर्यदावस्तुसारु ध्वा दीर्घम् सुसंवादाप्याय हरि यस्य सुयुजा विव्रतावेरवान्तानुसेवा उहारजीनकेशिनापदिर्दन् अपयोरिन्द्रः पापजामर्थो न सस्रमानोऽपि भी भीवान् शुभे यज्ञो युचेतविषीवान् स च यो लिङ्गः सर्क्शः भूपानदः स पर्यन् नदयोर्व्यतयो स्थूर इन्द्रः अधियस्तसौके समन्ताव्यजः स्वन्तानपुष्ट्यै अनो दिशिप्राभ्याम् शिप्रणीवान् स्तौ ऋष्पौजाहृष्वे वित्तदक्षसौ रसवासा वज्रं यश्चक्रे सुभनायजस्य वेहिनीपसोगिनी अरुदः निरद्भूतन्नरजाः अपानाविधिनाशीचीकृतापने मादृजाः ब्रह्मा यज्ञो चादित्वे ऊर्ध्वा यत्तेऽत्रेति नीभूद्यज्ञस्य दूर्षुसद्वन् स योर्नाभं स्वय संस चायोः श्रूयते पृश्नेरुपसे च नीभूत् श्रियेदर्वीररेपाः यास्वे पात्रे च समुदे शतम् वाजदा सुर्य प्रच्वा सुमित्रयुद्धास्तौ सुमित्रयुद्धास्तौ दे प्राभोजग्दस्य भत्ये कुत्सपुत्रम् प्राभो जग्स्य भत्ये कुत्स भत्सम् भाद्रान्नोऽपि वादयमनाः ओ हरिः ओ भावो नानन्ददिगर्धये देविदम् वा जेयो वस्त्रापदे सद्यनाजात प्रेमाजीगस्तुदिनेव वृक्षातम् जयेते पुष्टादेव पर्वादेव प्रायोगेव स्वाध्या सा सुरेखाः दूते वयिष्टो यशसा जने सुमापश्चादामयिषेवापपानात् सा गम्जिया समस्येव प्रक्षापस्येव चित्राय दुरागाविष्टम् पत्निरीवलेवयोर्धीदिवाम् वा सा परिज्ञा आपीवो अस्मे पितरेव पुत्रोऽग्रेव रुजा नृपतीव तुर्यै गिर्येव पुष्ट्यै जिरमेव भुजैश्व कीवाने वहवमागामिष्टम् वा अमम्सेव पूषर्या सिंवाता मित्रेवता सतदा सादवन्ता आदेवोच्चवय सा गम्येष्ठामेषे वेषा स पर्या आपुरीषा शृण्येव जग्भरीः दुर्भरीः दूनैतो देव दुर्भरी बर्भरी गा उदन्यजे भजे म नामधेरुदामे जलायि वजलम् मलायु वज्रे वचत्सरञ्जानम् मलायुक्षेवाज्राद्रन्वायुन्नपर्फलक्षयत्रयीना धर्मे मधुजठरे सने रूपभे पिता दुर्भरी पारिवारम् अतरेव सचल चन्द्रनिन्दे मनारुङ्गामन्यानजग्मी बृहन्देव गम्भरेण प्रतिष्ठाम् वादेव गाधम् तरा देविदातः तन्ने स्मरासोंसेवनो भजतम् चित्तमप्नः आलङ्गरे मम पारे कीलारे वस्तेदमादृष्पिता मे भोर्जासूयवसात्स चेथे स्तोमम् धनिया पपाजमानो मन्त्रम्पयाशो नव त्वम् मधुगो सुन्दराभूतांसो अश्विनोः का वार्भिरेखेश्वरिदः सजम् ते शृण्वन्तरेखे समानेषु सोमाने न्तयन्तो नारके पातामेषाम् विश्वम् जीवन्तमसो विरमोदि मयि ज्यो दिक्ष्यतिषद्दत्तमागा दुरुप्पन्ता दक्षिणाया अदर्षिच्चारि दक्षिणा वन्तो अस्थर्ये अश्वदासजे सूर्येण हिरण्यतावदत्वम् भाजन् देवासोदास्तो प्रतीरम् वायुः देवीपूर्तिर्दक्षिणा देव यज्ञानकवायुभ्यो नयेणन्ति अथा न प्रयात दक्षिणादोपद्यभिया भगवन्ति सदतारम् वायुमर्कम् स्वर्विदम् त्रि दक्षस्ते अभिलक्षते हविः ्यच्छमे ते दक्षीणाम् द्रुवते सप्तमातरम् दक्षिणावान् प्रथमो भूतयेति दक्षिणावान् ग्रामनीरग्रामेति अमे मन्ये नृपदिनिर्जनादा प्रथमो दक्षिणामाभिवाय अमेव ऋष्यन्दमो ब्रह्मा न माहुरुजन्यम् सा मगामुक्तसाहसम् शुक्रस्य सन्वो वेदतिस्रोजप्रसमो दक्षिणया भराद दक्षिणा स्वम् दक्षिणागान्ददादिदक्षिणा चन्द्रमुदयद्धिरण्यम् दक्षिणान्नम् वनुतेजो न आत्मा दक्षिणाम् ब्रह्म गणुते विचारान् न भोजाम् न रिष्यम् इनम् यासन् भो देह भोजाः इदम् याज्ञि स्वम्भुवनम् स्वस्यैतत्सर्वम् दक्षिणैभ्यो ददाति भोजायज्ञस्वभिम् यो निमग्रे भोजा यज्ञर्मध्वा अय्यासुपासाः भोजाजिरन्तः पेयम्सुराया भोजा यज्ञर्ये अभूताः प्रयन्ति भोजाया स्वम् सम्भृजन् चासुम् भोजायाश्चे कन्या आसुम्भवाना भोजस्येतम् पुष्करिणी भवेस्वपरिष्कृतम् देववानेव चित्रम् भोजमस्वासुष्ठु <्भोजया> बाहो वरन्ति सुभ्रद्रसो वर्तते दक्षिणाजाः भोजन् देवासो मताभरेषु भोजः सप्तमीयेषु चेता किमिच्छन्ती सरभा प्रेतमानद्दूरे यध्वाजगौरिः पराजैः का स्नेही चैक्कामरीतज्ञासीत् कथम् रसाया अत रम्पयांसि इन्द्रस्यीपनयो निधीन्वाह अनिष्कतो बियसा तन्न वथा रसाया अत रम्पयांसि तीरेन्द्रः स्वलमेकादृशीकाय चेदम् दूतीरसरप्परागात् जगच्छान्नित्रमे नाद्यामासा गवाम् गोपा जन्नो भवादि नागन्दम् वे ददभ्यन्तरम्भरागात् अतम् गोहन्ध्य श्रवतो गभीराहता इन्द्रेणे मा गावस्वमेया ऐच्छपदी दिवो अन्तान् सुभगे पतन्ति कश्च येना अवसजातयुध्युतास्माकमायूधा सञ्जिग्मा असेन्यावः पनयोपचाम् सरिषव्यास्तन्वः सन्नुपापीः अदृष्टा भजे तव अस्तु पन्था मृहस्वतिर्वकुभया न मृळाचित् अयम् निधिः स न मे अग्रे बुध्न गोभिरश्वेभर्वसोभिर्दृष्टः रक्षम् इदम् फनयो येषु गोपाले कोपदमलगमाजगन्धा ये हनुषा यस्योमासिता अयास्यो अङ्गिरसो न भग्वाह तयेतपूर्वम् विभजन्ध्रगो नामधैतद्वजः फलयोपमन्निते वा शतम् सारमाजगन्ध प्रवासिदा सहसा दिव्येना स्वसा गन्वागणवैमा पुनर्घा अपदेगवाम् सुभगे भजामम् मे दभ्रा धृतम् नो स्वमिन्दो पितरङ्गीरसश्च घोराः गोगा मामे अच्छदजञ्जरा यमपात इदमनयोपरीयः दूरमीदमनयोपरीयमुद्गावो जन्तु ृहस्वधैर्याविन्दोलाः सोमोऽवा नर्षयश्चवित्राः ते वदन् प्रथमा ब्रह्मगिर्भिरेगोपालस्सलिलोमातरिष्वा वीरुहरास्तप उग्रोम यो भूलापो देवी प्रथमजालितेन राजा प्रथमो ब्रह्मजाजाम् पुनर्प्रायश्छदहृणीयमानः अन्वर्तितावरु नो मित्रासीदग्निर्होता हस्तगृह्यानिनाय हस्ते नैव ग्राह्य आधिरस्य ब्रह्मजायेयमिति चेदभोजन् य प्रह्येतस्त एषा तथा राष्ट्रम् कुपितम् क्षत्रियस्य देवायै तस्या मम दम् पूर्वे सप्तऋणयस्तपसे निषेतुः भीमायाभ्राह्मनस्योपनीता दुर्द्राम् दधाति परमे व्यो मन् ्रह्मचारी च रदिवेहस्वदेवानाम् भवत्येकमङ्गम् तेन जाजामन्वृन्दर्बृहस्वति सो मेन गीताम् जुह्वा अन्वदेवाः पुनर्वै देवा दधः पुनर्नर्मष्याभुधा राजा नः सत्यम् ब्रह् बाला ब्रह्म राजाम् पुनर्दतुः ज ब्रह्मजायाम् कृत्वी देवैर्निगर्भिषम् ऊर्जम् पृथिव्या भर्त्वा योरुगाजमुपासते समिद्ध अद्य मनुषो दुरो मे देवो देवाम् यजसि जातवेदः आशमः मित्रमहश्चिखि त्वाम् त्वम् दूतः ृतस्य नान्मध्वासमञ्जन्वदयासु जिह्वा मन्मानिधिभिरुदयज्ञबृन्धम् देहत्रा च कृणक्यध्वरम् नाह आजिह्वा नये ज्यो वन्द्यश्चायाक्ष्यग्सुभिः सजोराः त्वम् देवानामसि यक्वहोदासये नान्यक्षयिषि यो यजीयानि प्राचीनम् भरिषा पृथिव्या वस्तो रस्यामृजते अग्रे अह्ना यो प्रथले विरामरी यो देवेभ्यो अधीतये स्योनम् यजस्वतीरुया विश्रजन्ताम् पतिभ्यो न जनयः शुम्भमाना देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्राय आरुष्वयन्ती यजते उपाके कुषा सानक्ता स गताम् योनौ दिव्ये भिसन्दधाने दैव्याहोतारा प्रसमासुमासामिमानायज्ञम् मनुषो यजध्यै रचोदयम् ता विदधेशुकारु प्राचीनम् ज्योतिःप्रतिशान्ता आनो यज्ञम् भारती तु य मेद्विरा मनुष्यदिह चेदयन्ति ो देवेर्बरिरेताम् शोरम् सरस्वती वापृथिवी चरित्रीरूपैरविम् सद्भुवनानि विश्वा समद्यो दर्शिलो यनीयाम् दष्टारविहयक्षि विद्वान् उपासु चमन्या समञ्जम् देवानाम् पादऋतुताहवींषि वनस्पतिः स्वविता देवो अग्निस्वदम् तु हव्यम् मधूना घृतेन सद्यो जातो व्यविनीतजज्ञमग्निर्देवानामभवत् लोगाः अस्य होधप्रतिश्रुतस्य वाजिस्वाहा कृतम् हविरदन्तु देवाः मनीषिणः प्रभरद्वम् ैरे राजामा कृते भीरोगिर्वनशिर्विदासङ्गा श्रेयो गोभीरानटे उदान्तीप्संविर्या चालंसि इन्द्रकिल श्रुत्या अस्य मे दशजष्टप्पजगत्सूर्याय आन्वेण्ण्यच्यूतो भवतीतः इन्द्रोन्नामागतो अर्णवस्य प्रतामी पातङ्गीलोऽभिर्गृणानः धर्मम् सदा इन्द्रो जिमप्राजिमानम् पृथिव्या विश्वा वेदसमानाहन्सुक्ष्मम् महीम् जियामात नोत्सूर्येण चास्कम्भाजिस्कम्बानेन सृभीयान् ज्रेण मृत्रमस्तरदेवस्य सुषुमानस्य मायाः विदृष्टा अत्रा धिषदा च गन्धा भवन् बाह्नम् रामस्य केतवो रामविन्दन् आयन्नक्षत्रम् ददृशे दिवो न पुनर्यतो न किरद्धानुवेद दूरङ्गिनप्रथमा जग्मुरा सामिन्द्रया प्रान्ताः सजस्य मोक्षमाणाभूतया मो मुद्रे धे देता मन्दे निजिक्ताः तद्धीजे सिन्धो वशतीरे वायन्स राज्यः पूर्भिदासाम् अस्तमाजेपाचीवावसोऽन्यस्मे जग्मुः सूनुतायि न भूयः इन्द्रपिमप्रतिकामम् सुदस्य प्रातः सावस्तवहि पूर्ववीदिः अरुणः सहन्दवेशो नो लुक्ते भिट्टे वीर्या आस्तेन सोमन सोचनी यानेन्द्रतेन सोमपेयाहिमाते हरयः प्रद्रावन्धेभिर्यासिकृषभिर्मन्दमानः हरिस्ततावच्च सा सूर्यस्य श्रेष्ठैरूपैस्तन्वम् स्वर्जयस्व अस्माभिरिन्द्रसृङ्गेभिर्गुपालस्सध्रीजिनोमादयस्व निषद्य यस्यन्ते महिमा नम् मदेष् मे महीरोदयसीनावित्ताोकाहरिभिरिन्द्रयुक्तैः प्रियेभिर्याहि प्रियमन्नमच्छ यस्य सत्त्वभिवायिम् न शत्रूज्यारण्या सकर्थ स धुरम् येमतायसुतनिम् रसोमा